अथ षड्विंशोऽध्यायः सौतिर्वाच एवं स्तुतस्तदा कद्वा भगवान् हरिवाहनः नीलजीमूतसङ्घातैः सर्वमम्बरमावृणोत् मेघा नाज्ञापयामासा वष्यध्वम् अमृतम् शुभम् ते मेघापुमुचस्तोऽयम् प्रभूतम् विद्युदुज्ज्वलाः दिवि संवर्तितमिवाकाशं जलदैः सुमहाद्भुतैः सृजद्भिरतुलन्तोऽयम् अजस्रम् सुमहारवैः सम्प्रनृत्तमिवाकाशं धारोर्मिभिरनेकषः मेघस्तनितनिर्घोषैर्विद्युत्पवनकम्पितैः तैर्मेघैः सततासारं वर्षद्भिरनिशन्तदा नष्टचन्द्रार्ककिरणम् अम्बरम् समपद्यता नागानामुत्तमो हर्षस्तथा वर्षति वासवे आपूर्यतमही चापि सलिलेन समन्ततः रसातलमनुप्राप्तम् शीतलम् विमलं जलम् तदा भूरभवच्छन्ना जलोर्मिभिरनेकशः रामणीयकमागच्छन्मात्रा सह भुजङ्गमाः इति श्रीमहाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे षड्विंशोऽध्यायः